मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं फ़िफ़्टीन् गणेशरहस्ययोगम् श्रीगणेशाय नमः मुद्गल उवाच अधो प्रवक्ष्यामि येन चित्तं लयं व्रजेद ब्रह्मण्यास्ताय योगं ज्ञात्वा योगं प्रजापदे लयश्च दुर्विधप्रोक्तो नित्यो नैमित्तिकः परः तृतीयप्राकृतो विप्रैः सारस्वतश्च दुर्धक कर्म कर्म विकर्माख्यो नित्यप्रोक्तो बुधै पुरा कर्मानुकूलभावेन जनानां जननादिकम् क्षणक्रमादिमारभ्यायुषामन्दः समास्थितः गर्भाधानाद्यवस्थानां प्रकाशश्च प्रकथ्यते ब्रह्मणो दिवसान्ते स कुण्ठितो नैमित्तिकलये नैव शुभा शुभाशुभयुता सर्वे जन्तवो लयमाययुः शुभाशुभफलर्हिना बभूवः कर्मकुण्डनाद् स्वर्गमण्डलपर्यन्तं त्रैलोक्यं प्रलयं गतम् तावता स प्रमाणेन नित्यः बुधैः अधो नैमित्तिकं दक्ष कदयामि समासदः चतुर्युगसहस्राणि ब्रह्मणो दीनमुच्यदे नैमित्तिको दिनान्तो यस्तदायं वरुददेलयः तेन नैमित्तिकः प्रोक्तो नाम्ना सर्वार्थको विदैः अधुना प्राकृतं वच्मि व्यवस्थाभिर्युदं लयं महाकारणगं चेदं स प्राकृत उदाहृतः तत्त्वानामेक भावेयं स्थूलसूक्ष्मसमात्मनाम् कृतप्रकृतिस्तत्वात् काद्यदेवि बुधैः परः सारस्वदं परं पूर्णं शृणुयोगप्रदं प्रभो निरोधचित्तभावेन पञ्च चित्तलयात्मकम् मनोवाणीमयं सर्वं विश्वं नानास्वभावगं मनोवाणीविहीनं सम्प्रज्ञादं विदुर्बुधाः वाण्याः सङ्कथ्यते भावो मनस्तत्र प्रगच्छति नानापदार्थभिन्नत्वाद् सर्वेषां प्राणिनां प्रभो वाण्या वाणीविहीनं यत्कथितं ब्रह्महृद्गदं चित्तं समाधिना तत्र सदा तिष्ठदि तादृशं वाणी प्रोक्ता ब्रह्मकारा जगन्मयी तयोर्नाशे लयप्रोक्तः परः सरस्वतो बुधैः यत्र योगभावात् प्रगच्छति महावाक्यादिसंयुक्ता स सारस्वत सारस्वतलयेन्नैव चित्तं पञ्चविद्धं प्रभो चिन्तामणौ लयं कृत्वा तिष्ठत्वं योगिसम्मदः ये दत्सर्वं समाख्यादं योगदं ते समासदः गोपयैनं महायोगं ततो योगी भविष्यसि मायोगम् कथयस्वत्वमिमं कस्मै प्रजापते पात्रहीनप्रभावेण भ्रंशदस्ते भविष्यति वासनाहीनभावेन गणेशज्ञानलालसान् तान् बोधयविशेषेण तदायं शुभदो भवेद् अत्र ते कारणं दक्ष कदयाम सी श्रवणमात्रेण संशयस्तुयं योगाकारो गणेशनो यदा खेल परा तं वचन मए सिबु सूचद सिद्धिबुद्धी ऊचदु यदि केलं करोषि त्वमावाद्भ्यां गणनायक आवां त्वां चादयिष्यावो नानाभावप्रदर्शनाद वेदादिभिस्तत्र वाणीमयि गाधा गजानन स्वरूपं ते यथा तद्भ्यं कथयिष्यदि मानवान् तेन त्वां ब्रह्मणां ज्ञास्यन्ते मानवादयः त्वदुपासनमात्रेण भवेयुर्ब्रह्मभूतकाः न त्वां छादयितुं शक्रे वाणीस्थं गणनायक अधस्तदर्थमानन्दात् कुरु किञ्चिद्गजानन एवं माखेदं कुरुदं देव्यौ वाणीं सम्मोहयाम्यहं मोहिता सामयवाणीवर्णनं भ्रान्दितं च मे करिष्यति प्रगूढार्थयुधं सत्यार्थभाषितं गूढार्थं नैव देवेश योगीशास्तत्त्वदर्शिनः ज्ञास्यन्ति तेन मां सर्वे न भजिष्यन्ति भावतः सिद्धिबुद्धियुगं ब्रह्मवाणी प्रकटयिष्यति न गणेशमयीं गाधां कथयिष्यति योगदां सिद्धिबुद्धिमयं सर्वं जगद्ब्रह्मप्रसेव्ययः यदा शुद्धो नरो भावी तदा मा स्यदिप्रिये परं सिद्धियुतं ब्रह्मकथितं सिद्धिदायकं स एव गणनाथोऽयं पदिसिद्धेः प्रमाणदः परं बुद्धियुतं ब्रह्म परं बुद्धे प्रकथ्यते गणेश एव सम्प्रोक्तः पदिर्बुद्धे प्रमाणदः एवं त्रैविध्यगं वाणी वदिष्यति सदा तु मां सिद्धिदं बुद्धिकं ब्रह्म शास्त्रे श्वेतत्रयं मदम् एवमुक्त्वा गणेशानः पुनस्तूष्णीं बभूवतम् उवाच प्रणनामादौ भक्तिपरमदुःखिता भक्तिरुवाच वरो दत्तस्त्वयानाथसिद्ध्यै गजानना तेन भक्तिविहीनाश्च भविष्यन्ति सदा नराः अदोहं दुःखसंयुक्ता चरिष्यामि निरन्तरं मां पालय गणाध्यक्ष भक्तियुक्ताञ्जनान् कुरु एवमुक्तो गणाध्यक्षस्तामुवाच सुदुःखितां भक्तिं भक्तिप्रियपूर्णस्मयमानः प्रजापदे श्रीगणेश उवाच मा शोकं कुरु कल्याणि नरामद्भक्तिकारकाः देवनागासुराद्याश्च भविष्यन्दिनसंशयः नानादेव परायेदु भक्त्या जन्मनि जन्मनि सन्तुष्टा अमरास्तेभ्यो दास्यन्त्यग्निरुचिं मुदा ततस्तेऽग्निं समाराभ्य भक्तियुक्ता निरन्तरं तुष्टं तं वैकरिष्यन्ति नाना यज्ञपरायणाः ततस्तस्य कृपायोगाद्देवी भक्तियुदा नराः भविष्यन्ति तदे सर्वे तां भजिष्यन्ति संयताः एवं बहौ गदे काले सन्तुष्टा सा प्रदास्यति तेभ्यः सौरीं महाभक्तिं भजिष्यन्ति तया रविं ततो बहौ गदे उग्रां दास्यति भक्तिं तु वैष्णवीं तेभ्य आदराद तया युक्ता भजिष्यन्ति विष्णुं भावसमन्विताः नरास्ततः सन्तुष्टो बहुकाले भविष्यति तुष्टो विष्णुः स्वयं तेभ्यो दादा स्याद्भक्तिमुत्तमां शैवीं तया ततस्ते भजिष्यन्ति सदा शिवन् ततो बहौ गते काले तुष्टशम्भुः प्रदास्यति भक्तिं गणेश्वरीं तेभ्यो भजिष्यन्ति तयाच माम् मां नराशान्तिं समालभ्य मत्तो योग योगपरायणाः ब्रह्मीभूता भविष्यन्ति भजिष्यन्ति तथापिते ते एवं क्रमेण मद्भक्ता भविष्यन्ति नरादयः त्वद्युक्ता मां भजिष्यन्ति तेषां वश्यो भवाम्यहं न भक्ते ते वैप्रियं वै प्रियं यत्र भक्तिर्गदा तत्र यथा स्थास्यामि गिङ्गरः स्वानन्दं लक्षलाभौ च सिद्धिं बुद्धिं मदीयकं सर्वं तेभ्यः प्रदास्यामि भक्तेभ्यो नात्र संशयः अयं मदीयदेहश्च भक्ति भविष्यति भक्ताग्रे भक्तरूपेण सदा स्थास्यामि दासवद कर्मभ्यश्चाधिकं भक्ते तपः परमदुश्चरं तपोभ्यश्चाधिकं ज्ञानं निःसङ्गपददायकं ज्ञानाद्योगसमाख्यादोऽद्धिकशान्तिप्रदायकः तस्माच्च त्वं महाभक्ते भविष्यस्यधिका प्रिया भक्तेः परं न किञ्चिन्मेक्ष्यधिकं शास्त्रसम्मतं भविष्यति महाभागे मा चिन्तां कुरु सर्वथा अन्यद्वाणीमदीयं यद्गूठं रूपं वदिष्यति तदर्थं ते प्रियं भक्ते करोमि शृणु मे वचः मदीयभुजसंस्थोऽयम् उद्गलः सर्वदर्पः स एव ब्राह्मणो भूत्वा चरिष्यति निरन्तरं कृतं तेन मदीयं वै पुराणं वेदबृंहितं गूढार्थद्योदनं भावि सर्वेभ्यो भक्तिदायकं स्वरूपं तत्र मे भक्ते प्रकटं पश्यतां नृणाम् शृण्वतां तत्तथा पूर्णं भविष्यति न संशयः तथापि दुर्लभाभक्तिर्मदीया त्वं भविष्यसि अधोल्पत्न्यानमां देवि भजिष्यन्ति कदाचन विघ्नम् मौद्गल शास्त्रोऽहं करिष्यामि भ्रमप्रदम् अश्रद्धं नष्टं तद्भविष्यति कदा कदा तव भावस्य रक्षार्थम् मौद्गलं निर्मितं मया अधः परं महाभक्ते वद किं ते करोम्यहम् एवम् तस्य वच श्रुत्वा हर्षिदा सा ननामदम् गणेशम् भावगम्भीरा न किञ्चित् पुनरब्रवीद एतत्ते कथितं दक्ष गुह्यम् विघ्नेश्वरस्य यद् अधो प्रकर्षेण शास्त्रं कुरु त्वं दक्षः सर्वभावेषु दक्षा, सर्वभा दक्षा न विद्यते अतस्तुभ्यं सर्वं कथितं शास्त्रमुत्तमं हृदिस्तेन गणेशेन प्रेरितोऽहं प्रजापदे तदाज्ञया हृदिस्थं मे अनेन विधिना दक्ष भज तेनेप्सितं समासाद्यगाणपत्यो भविष्यसि ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन गणेशरहस्य योगो नाम पञ्चदशोऽध्यायः योग गीतापनिष् सुगमासुकादशोध्याय ओ